शः सर्गः तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षम् पुरतः सोऽयम् वा नरमूर्तिः स्यात् किम् स्विद्बाणोऽपि वासुरः स राजारोषताम् राक्षः प्रहस्तम् मन्त्रिसत्तमम् कालयुक्तमुवाचेदम् वचो विपुलमर्थवत् दुरात्मा पृच्छ्यतामेष कुतः किम् वास्य कारणम् बलभङ्गे च कोऽस्यार्थो राक्षसानाम् च वै गमने किम् प्रयोजनम् आयोधने वा किम् कार्यम् पृच्छ्यतामेष दुर्मतिः रावणस्य वच प्रहस्तो वाक्यमब्रवीत् समाश्वसि हि भद्रम् तेन भीः कार्या त्वया कपे यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् तत्त्वमाख्याहि मातेभूद्भयम् वानरमोक्ष्यसे यदि वै यमस्य वरुणस्य च चारुरूपमिदम् प्रविष्टो नः पुरीमि विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा न हि ते वानरम् रूपमात्रं तु वानरम् तत्त्वतः कथयस्वाद्यततो वानरमोक्ष्यसे अनृतम् वदतश्चापि दुर्लभम् तव जीवितम् अथवा यन्निमित्तस्ते प्रवेशो रावणालये एवमुक्तो हरिवरस्तदा रक्षो गणेश्वरम् अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च धनदेन न मे सख्यम् विष्णुना चोदितः जातिरेव मम त्वेषा दर्शने राक्षसेन्द्रस्य तदिदम् दुर्लभम् मया वलम् राक्षसराजस्य दर्शनार्थम् विनाशितम् ततस्ते राक्षसा प्राप्ता बलिनो युद्धकाङ्क्षिणः रक्षणार्थम् च देहस्य प्रति युद्धा मया रणे अस्त्रपाशैर्न शक्योऽहम् बद्धुम् देवासुरैरपि पितामहादेशवरो ममापि हि समागतः राजानम् द्रष्टुकामेन मयास्त्रमनुवर्तितम् विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः केनचिद्रामकार्येण आगतोऽस्मि तवान्तिकम् दूतोऽहमिति विज्ञाय राघवस्यामि तौजसः श्रूयतामेव वचनम् मम पथ्यमिदम् प्रभो इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः